वयम वयममित्रघ्नानि वसा मोकुतो भयाः आलोच्य गिरिमुख्यं तं मागधम् तीर्णमेव च माधवाः कुरु शार्दूला परामुदमवाप्नुवन् एवं वयं जरासन्धादभितः कृत किल्बिषाः सामर्थ्यवन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः त्रियोजनाय तं सद्म त्रिस्कन्धं योजनावधि योजनान्ते शतद्वारं वीरविक्रमतोरणम् अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः अष्टादशसहस्राणि भ्रातॄणां सन्ति नः कुले आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः अहं च रौहिणे यश्च प्रद्यम् न एव च एवमतिरथाः सप्ता राजन्नन्यान्निबोध मे कृतवर्मा ह्यना धृष्टिः कङ्कशङ्कुश्च कुन्तीश्च सप्तैते वै महारथाः पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दशा वज्रसंहनना वीरा वीर्यवन्तो महारथाः स्मरन्तो मध्यमम् देशम् वृष्णिमध्ये व्यवस्थिताः